गणेशपुराणं क्रीडाखण्डम् अध्ययं हण्ड्रेड् एण्ड् थर्टि त्रि व्यास उवाच पुष्पिकानिकडेत्यक्तो वरेण्यस्य गृहे स किं चकार तन्ममाचक्ष्वकार्यं विस्तरदोब्ज क उवाच सम्यक् पृष्ठं त्वया वत्स हृदयानन्दकारकं कथयिष्ये विधानेन तत्सर्वं पापनाशनं तस्यां निशायां व्युष्ठायां ददर्श पुष्पिकासुदं चतुर्बाहुं रक्तवर्णं गजवक्त्रमलङ्कृतम् कस्तूरीतिलकं मुक्ता मालया सुविराजितं पीदवस्त्रपरिधानं चारुचन्दनचर्चिदं दे दीप्यमानं वपुषा नानालङ्कारसंयुतं तदस्सा पुष्पिका दृष्ट्वा बालकं तु तथाविधम् विस्मिता दुःखिता चापि भयभीदा भवत्तदा क्नदीवक्षो बहिर्यादापाणिभ्यां शोककर्षिता तदा क्रन्दिदमाकर्ण्य मिलिताः परिचारिकाः ताभिरत्यद्भुतं दृष्ट्वा बालकं तं तथाविधम् नृपोपी ज्ञावृत्तासगणों यय गृहे ततस्ते भयोद्विघ्ना दृष्ट्वाधम अधीरा पपुलुस्त केजिन्मूर्चा मुयु केजिच्च नृपति प्राकुर्न जादो न भ्यति न दृष्टो नृत क्वादृशो नृण नैवाय स्थनीयस्ंश्छेद गृहेमकर्ण्यसा वाक्यमे सूपति दूताच बालों त्यज्य गहने वने तदोदूदागदा मध्ये गृहीत्वा बालकं तु तद् गहनं काननं दृष्ट्वा विवर्जितं। तीरेदु सरसस्तत्र क्षिप्त्वा ते पर्णसञ्जयैः आच्छाद्यप्रययु शीघ्रं वरेण्यं नृपतिं पुनः सभामध्ये नृपं धृष्ट्वा नमस्कृत्वा ब्रुवंस्तदा आत्मया तव राजेन्द्र सिंहव्याघ्र निशेविते त्यक्त्वा बालं समायादा भक्षि तस्याद्वने चरैः क उवाच यावच्च भक्षितुं यादा जम्बुकास्तावदेवतं पराशरो मुनिवरो ददर्शकरुणानिधिः चतुर्भुजं गजास्यं तं कोडिसूर्यनिभं शिशुं नानालङ्कारसंयुक्तं दिव्याम्बरविभूषितं सर्पवेष्टित तन्नाभिं चिन्तामणिविभूषितं मुमोहमायया तस्मै सर्वज्ञाननिधिर्मुनिः शुश्रोच किमिदं विघ्नं मम नाशाय निर्मितम् इन्द्रेण मे काङ्क्षदा स्वार्थसाधनम् अकारिणमया किञ्चिद्दुष्कृतं पापभिरुणा दीननाथचन्द्रचूडरक्ष मां महदोभयाद एवं शोचन्दमालोक्य गजास्य करुणायुधः निराकरोन्मोहजालं तं तदो लक्षयत्पुरः तमेव परमात्मानं परब्रह्मस्वरूपिणं भक्तानां रक्षणं कर्तुमीदृशं वेषमास्थितं धन्यं मेद्यजनुर्मातापितरौ च तपोमहत् निरस्थौ जन्म मृत्युमे प्राप्तं वाञ्छिदमुत्तमं केनायं हदभाग्येन बालस्त्यक्तो वनान्तरे क उवाच एवमुक्त्वा मुनिःशोध निन्ये बालं स्वमाश्रमं वत्सलास्य ततः पत्नी दृष्ट्वा बालं तथाविधम् आनीदं स्वामिना ज्ञात्वा ननन्दस्नेहनिर्भरा हृदये विनिवेश्यैनं प्राहप्राणपदिं तदा बहुकालकृतं स्वामीं तपस्ते फलितं गुरु यस्य स्वरूपं न ब्रह्मा न मुनयो न विदुःसाक्षाद्दर्शनं जातमद्यनौ यः कर्ता रक्षिता हन्ता सर्वस्य जगतः प्रभुः अवतीर्णो भुवो भारं हर्तुं नानावतारकृत महद्भाग्यं हि नौ स्वामिन्ननायासेन विश्वभृत अक्षिगोचरतां यादो मनोवाचामगोचरः क उवाच तस्य बालस्य स्पर्श नस्तनौ पीनपयोधरौ जादौ पपौ तदो बालसाचानन्दमवापः तदशुश्राव राजासौ वरेण्यो बालकं तुतं पराशरेण मुनिना पालितं दिव्यचक्षुषा वाद्यकोषेण महदा शर्करां च गृहे गृहे दापयामा सहर्षेण ब्राह्मणान् सुहृदोऽपि च तोषयामास वस्त्राध्यैकाञ्चनैरत्नसञ्चयैः गाव कामदुःखाजादा शुष्कवाप्यो जलान्विताः आश्रमे तु मुनेस्तस्य शुष्कवृक्षाफलान्विताः यदं शृणुयान्मर्त्यपुत्रवान् धनवान् भवेत् इति श्रीगणेशपुराणे क्रीडाखण्डे पराशरदर्शनं नाम त्रयस्त्रिंशोत्तरशततमोऽध्यायः ओ